युधिष्ठिर उवाच इहयत्तैर्निराकारैर्वस्तव्यमिति रोचये अप्रमत्तैर्विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः यदि विन्देत चाकारमस्माकं स पुरोचनः ततो भूत्वा प्रदह्यादपि हेतुतः नायं विभेत्युपक्रोशादधर्माद्वापुरोचनः तथा हि वर्तते मन्दः अथवापीह दग्धेषु भीष्मोऽस्माकम् पितामहः धर्म इत्येव कुप्येरन् ये चान्ये कुरु पुङ्गवाः वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेमहि स्पर्शैर्निर्घातयेत्सर्वान् राज्यलुब्धः सुयोधनः अपदस्थान्पदे तिष्ठन्नपक्षान् पक्षसंस्थितः हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् तदस्माभिरिमम् पापं तं पापं सुयोधनं वञ्चयद्भिर्निवस्तव्यं छन्नावासं क्वचित् ते वयं मृगया शीलाश्चरामवसुधामिमां तथा नो विदिता भविष्यन्ति पलायतां भौमं च विलमद्यैव करवामसुसंवृतं गूढश्वासान्ननस्तत्र हुताशः सम्प्रधक्ष्यति वसतेत्र यथा चास्मान्न बुध्येत पुरोचनः पौरो वापि जनः कश्चित् तथा काव्यमतन्द्रितैः इति श्रीमहाभारते आदिपर्वणि जतुगृहपर्वणि भीमसेन युधिष्ठिरसंवादे पञ्चचत्वारिंशदधिकशतमोऽध्यायः